पादपाठम् शतङ्गीव शरदो वर्धमान शतं हेमन्ताञ्छतमु वसन्तान् शतमिन्द्राविता शतायुषा हविषेमं पुनर्दु शतञ्जीव शरदो वर्धमान शतं हेमन्तान् शतमु वसन्तान् शतमिन्द्राग्नि सविता बृहस्पति शतायुषा हविषेमं पुनर्दु